मुद्गलपुराणं खण्डम् एय्ट् धूम्रवर्णचरितम् अध्यायं ट्वेन्टि सवेन् वैशाखमासमाहात्म्ये शिवदत्तबोधं श्रीगणेशाय नमः शौनक उवाच वैशाखस्यैव माहात्म्यं श्रावणस्य वद प्रभो मखमासस्य चित्रं त्वं सुद सर्वार्थकोविद सूद उवाच वृत्रासुरो महादैत्यो जित्वा त्रैलोक्यमोजसा कर्मखण्डनमार्गेण देवान् हन्तुं समुद्यतः तदो देवगण सर्वे भयभीदा बभूविरे शरणं स्वगुरुं जग्मुरुपोषणपरायणाः तानुवाचमहातेजा बृहस्पतिरुदारधीः सेन्द्रान्वैशाखम् देवा गुरुध्वं व्रतमुत्तमम् तेन व्रतप्रभावेण समर्थः सुरनायकः दधीच्यस्थिजवज्रेण हनिष्यदि महासुरम् सुरर्षयस्ततस्ते तं नमस्कृत्य ययुर्वनम् गुप्तरूपेण वैशाखव्रतं चक्रुः प्रहर्षिताः गणेशपञ्चकम् नित्यं शिषे विरे सुरर्षयः गणेशस्मरणं ध्यानम् चक्रुः परमभाविकाः वैशाखी पूर्णिमायां ते स्वप्ने सर्वसुखावहं ददृशुर्गणराजं वै मूर्तिस्थं पूजने रथाः मूर्तिस्थान् प्रत्युवाचेदं वाक्यं वाक्यविशारदा इन्द्रदेहं समाश्रित्य हनिष्यामि महासुरं। अमरामुनयः सर्वे प्रबुद्धा विस्मिता जगुः परस्परं विचार्यैवं सर्वैकस्वप्नभावदः तदक्रोधसमायुक्रो बभूव देवनायकः देवान् गृह्य ययौ तत्र दधी चिं मुनिभिः तं प्रार्थ्य वज्रमादाय तदस्तिजं महाबलः देवैः समावृतो युद्धं वज्रेणैव चकारसः वृत्तेन्द्रयोर्महाद्युद्धं देवानां दैत्यपैः सह बभूवदारुणं विप्र मया वक्तुं न शक्यते इन्द्रोगणपतिं स्मृत्वा तं वज्रेण महासुरं जखान तं मृदं दृष्ट्वा दैत्याः पादालमाविशन् देवाकर्षसमयुक्ता ब्रह्मणा गणपं पुनः बदरारण्यदेशस्थं समाजग्मुः प्रतुष्टुः देवर्षय ऊजुः नमो नमस्ते परमात्मनेवै वै सदा गणानाम् पदये गणात्मने अनन्दमायामयकेलकारिणे परेश ब्रह्मेश नमो नमस्ते नमस्तुभ्यं महाविघ्ननाशनाय महात्मने विघ्नेशाय सुभक्तानां पालकाय नमो नमः हेरम्भाय महादीनपालकाय च ढुण्ढये लम्बोदराय देवाय देवदेवेष नमः अनाथानां प्रणादाय नाथहीनाय ते नमः नाथानां नाधरूपाय वक्रतुण्डाय वै नमः परत्परतमायैव योगशान्तिप्रदायते योगानां पदये तुभ्यं नमो योगाय ते नमः सगुणाय नमस्तुभ्यं निर्गुणाय नमो नमः सगुणनिर्गुणाभ्यां च वर्जिताय नमो नमः अनन्दमायया देवचारिणे ते दे नमो नमः मायाहीनाय मायायै मायिनां मोहकारिणे मूषकोपरि संस्थाय मूषकध्वजधारिणे सिद्धिबुद्धिपदे तुभ्यं स्वानन्दस्तायते नमः किं स्थुमस्त्वां गणाध्यक्षशान्दिरूपं परात्परं वेदादयसमर्थानयोगिनः शास्त्रसंयुताः यव मुक्त मुस्तम देवर्षयो महामुने स्वस्वस्थनमु हर्षयुक्न चेतसा वर्णाश्रमयुतालोका बभूवर्गतज्वरा दर्षय भागयुक्ता बभूविरी यतेन देवनायक हत्वा वृत्रासुरं विप्र देवै सुखयुधो भवद अन्यच्च शृणुमाहात्म्यं वैशाखव्रतसम्भवं सर्वपापहरं दुःखनाशनं श्रवणान्नृणां गार्ढ्यकोऽपि द्विजो नाम्ना शिवधत्तो बभूवः स गणेशपरो नित्यमभजद्गणनायकम् स्वधर्मसंयुधो नित्यं भार्यापुत्रसमन्वितः अग्निहोत्रपरो भूत्वा तिष्ठत् स्वतेजसायुधः तत्रागतं स योगीन्द्रं गर्गं सर्वार्थकोविधं तं प्रणम्य महाभागं शिवदत्तः पुपूजः परम् सुदं सुतं विनयसं युधम् मुक्तिमिच्छन्दमत्यन्तं गर्गः संघर्षितो भवद उवाच शिवदत्तं स पुत्रवाञ्छसि किं वद तत् करिष्यामि देशीलसन्तुष्टोऽहं न संशयः तस्य तद्वचनम् श्रुत्वा शिवदत्तकृताञ्जलिः तं प्रणम्य जगाद सुखदं वचः शिवदत्त उवाच गुह्यं वेदरहस्यं मे वद योगेन्द्रसत्तमयेनाहं कृदकृत्यश्च भविष्यामि सुसेवनाद गर्ग उवाच लक्ष चतुरशीदिषु योनिषु मानवात्मिका योनिः श्रेष्ठा महाभाग सुज्ञो यदुद्भवो भवेद धर्मार्थकाममोक्षाणां ब्रह्मभूयस्य सर्वदा पात्रदातस्य सम्भुधा तस्माच्छ्रेष्ठं न विद्यते तेषु ब्राह्मणवर्णस्थः श्रेष्ठशास्त्रेषु सम्मतः सर्वकर्माधिकारित्वात् तेषु शास्त्रज्ञ एव च तेषु स्वधर्मसंयुक्तोऽधिकस्तेषु तपोयुधः तेषु ज्ञानीमः श्रेष्ठः सर्वत्रात्मप्रदर्शनाद् तेषु योगी विशेषेणाधिकस्तेषु महामदे गाणपत्योऽधिको योगी परस्तस्मान्न विद्यते यत्र तत्रापि वर्णस्थो गाणपत्योऽधिको मदः योगी वेदादिषु प्रोक्तं पश्य संशयनाशनम् इदं वेदान्तसम्भूतं सारं ते सम्प्रकाशितम् तस्मात् भज गणेशानं कृतकृत्यो भविष्यसि ॐ तत्सदि श्रीमदान्ध्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खण्डे धूम्रवर्णजरिदे वैशाखमासमाहात्म्ये बोधो नाम सप्तविंशोऽध्यायः ओम्